लालाप्यमानमेकैकं जरिताञ्च पुनः पुनः न चैवोचुस्तदा किञ्चित् तमरुषिं साध्वसाधुवा मन्दपाल उवाच ज्येष्ठः सुतस्ते कतमः कतमस्तस्य चानुजः मध्यमः कतमश्चैव कनीयान्कतमश्च ते एवं ब्रुवन्तं दुःखार्तं किं वान्न प्रतिभाषसे कृतवानपि हि त्यागन्नैव शान्तिमितो किन्नु ज्येष्ठेन कार्यं किमन्तरजेन ते, ते। मध्यमजातेन किङ्कनिष्ठेन वा पुनः मां सर्वतो हीनमुत्सृज्यसि गतः पुरा तामेव लपितां गच्छ तरुणीं चारुहासिनीं मन्दपाल उवाच चा न स्त्रीणां विद्यते किञ्चिदमुत्तपुरुषान्तरात् सापत्नकमृते लोके नान्यदर्थविनाशनं वैराग्निदीपनञ्चैव भृशमुद्वेगकारि च सुहृता चापि कल्याणी सर्वभूतेषु विश्रुता अरुन्धतीमहात्मानं वसिष्ठं पर्यशङ्कत विशुद्धभावमत्यन्तं सदा प्रियहिते रतं सप्तर्षिमध्यगम्भीरमवमेने च तं लक्ष्यामित अपत्यहेतो अप्यहेस तथा मिह दृष्टमेवते हित्वं साधथथै वर्तते